21 बिम्ब पद्धति ट्वेण्टिवन् बिम्बप्रतिबिम्बपद्धतिः अनुष्टु शौर्युद्धान्तनारीणां विहारमणिदर्पणं प्रसक्तेरिव संस्थानं पदत्राणमुपास्महे वसन्तमालिका कदाजे कमलावदिपादुगे कदाचिद्विहगेन्द्रस्त्वयि बिम्बितो विभाति सविलासगतेऽभिरङ्गभर्तुर्निजमात्मानमिवोपधादुकामः मणिपङ्क्तिषु ते दिशामधीशास्प्रतिबिम्बानि निजानि वीक्षमाणाः अभयन्ति मुकुन्दपादुके त्वामधिकारान्तरसृष्टिशङ्गयेव मणिमौलिशतेन बिम्बितेन प्रणतानां परितसुरासुराणां मुरभिन्मणिपादुके महिम्ना युगपत्तेषु समर्पितेव भासि उपनीतमुपायनं सुरेन्द्रायैः प्रतिबिम्बचलदस्त्वयि प्रविष्टं स्वयमेव किल प्रसादभूम्ना प्रदिगृह्णासि मुकुन्दपादुके त्वम् वसन्ततिलकं नवपल्लवलोभनीयौ पादौ कथं नु कठिनास्वयमुद्वहेयम् इत्याखलयनियदं मणिपादुके त्वं पद्मास्तरं वहसि तत्प्रतिबिम्बलक्षात् पादार्पणात्प्रथमदो हरिदश्मरम्ये मध्ये तव प्रतिफलन्मणिपादरक्षे मन्ये निदर्शयति रङ्गपदिर्युगान्दे न्यग्रोधपत्रशयिदं निजमेव रूपं यात्रावसानमधिगच्छति रङ्गनाथे विश्राण यस्यनुपदं मणिपादुगे त्वं प्रायः प्रयाणसमये प्रतिबिम्बितानाम् तीर्थावगाहमपरं त्रिदशेश्वराणा उच्चावचेषु तव रत्नगणेषु माधर्वेधाप्रयाणसमये आशङ्कदेमुरभिदो मणिपादुगे त्वा मागामिकल्पकमलासनपङ्क्रिगर्भा आलोकरश्मिनियदां मणिपादुके त्वामारुह्य सञ्चरतिरङ्गपदौ सलीलम् अन्धःपुरेषु युगपत्सुदृशो भजन्ते डोलाधिरोहणरसं त्वयि बिम्बिताङ्ग्यः कालेषु राघवपदावनिभक्तिनम्रकार्याणि देवि भरतो विनिवेदयं स्ते त्वद्रत्नबिम्बततयापि मुहुः स्वकीयां राजा सनस्थितिमवेक्ष्य भृश्यं ललज्जे प्रत्यागदे विजयिनि प्रथमे रकूणां विन्यस्यति त्वयि पदं मणिपादरक्षे रत्नौखबिम्बिदनिशाचरवानरां त्वां पूर्वक्षणस्तमिव पुष्पगमन्वपश्यन् वै आकुलीं शमयितुं चगदो वहन्त्या रक्षाधुरां रघुधुरन्तरपादरक्षे प्राज्यं यशः प्रचुरचामरबिम्बलक्षात्प्रायस्त्वया कबलितं प्रतिभूपतीनां मालिनि प्रदिशमुपयादे देवि यत्रोत्सवार्थं त्वयि विहरणकाले बिम्बिदे जीवलोके वहसि मणिगणैस्त्वं पादुके रंगभर्तु कबलिदसकलार्थां का काञ्चिदन्यामवस्थां भगवद्गरुडस्थे वाहनस्था सुरेन्द्रास्त्वयि विनिहितपादे भूमि मे वाश्रयन्ति तदपि चरणरक्षे रत्नजाले त्वदीये प्रतिफलितनिजाङ्गास्तुल्यवाः भवन्ति मन्दाक्रान्ता स्वच्छकारां सुरयुवतयः स्वप्रदिच्छन्दलक्षाद्गाहन्ते त्वां प्रणदिसमये पादुके साभिमानाः त्री रत्नानां स्त्रीरना पीभव विख सृष्टिमेण दक्षा नीचर्त नरसखनेवशी मुजा स्वेच्छाकेचरत्नारा स्थस् निहितचरणो निर्विशनरङ्गनाथः सञ्चारन्दे सह कमलया शेषशय्याधिरूढस्त्यक्त्वापि त्वां त्यजदि न पुनः पार्श्वे स्थित्वा विनिहितदृश्योः पादुकेनन्यलक्ष्यं त्वद्रत्ने सुप्रतिफलितयोर्नित्यलक्ष्यप्रसादा पद्मा भूम्योर्दिशति भवति पादसेवा मुरारे हे एका मेघकिलनिरविशत्पादुके द्वारकायां क्रीडायोगी कृतबहुतनुषोडशस्त्रीसहस्रे शुद्धे देवि त्वदुपनिहिते दे। बिम्बितो रत्नजाले भुङ्क्ते नित्यं स भूमिकानां सहस्रैः आर्य हरिपदनखेषु भवति प्रतिफलदि तवै तदापि रत्नेषु उचितामिधः पदावनिबिम्बप्रतिबिम्बदा युवयोः सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे बिम्बप्रदिबिम्बपद्धतिरेकविंशी ओम्